काञ्ची चञ्चल किङ्किणी करवै कर्णमृदौ कल्पये दे वे सौरभसम्पदा सगजय घ्राणेप्सितुं पूरयेति वज्ञान् अधिदेवता नयनयो शैवोपरभ्येदवेति अदस्ते सविशङ्कते विवरदे त्वां विषये शङ्करग Shankaraha toam vīkṣate e eh, e eh.